आरे दिव्य दर्शन की लेके आया हूं। तुम्हारे की मै ख्याे कया हुहारे पलादो प्रेम का अमृत पिपाले मोल लाने वाले लाते वा को तेरी, वो लाते भट को तेरी. मञ्जू माला हेल आसु के मञ्जू माला जगत् रंग रङ्ग रंग रंग रंग, रंग, रंग मैं अपना यह रङ्गतरङ्ग लेके आया लेक है अपना महा बदना प्रकाशान कुटिया में कुट्या मेरि कुटिया में मे अधेरि कुटिया मे तु आशर विश्वास आशायाशरा विश्वास शाया दिव्य दर्शन की मे कया हिलादो प्रेमका अङ्ग के सभी गीत गाओ तु आगमन सभी छो परमात्मा के <coughs> <तभी> <coughs> का ी सदा वुखिका हमदर्द अकलो की श्रुति जगनार् है उसे को बताती का हम बता वुखि कामद श्रुति जग डा है उसे को बताती अजर है अमर है उसकी आओ से शरण जाओ अजर है है शर चौ द्वारा गई जो बखानी है सागरे भारे धी चौ ऋषिं द्वारा गई उसी दीप से मन का दीपक जलाओ मन से सभी सभे चो उ दीपते मन का दीपक जलाओ मनगे सद छोटे वनन्द सकल दुख हरया पिता मातावै है सखापुर है सकल दुख हरया पिता माता वही है, सखा और उसी भी करो प्रीत प्रेत बनाओ तो तु मन चे सभी छो करो पीत, ो बनावो तो आवा है योगी ही में जको पुकारे जा वै बव के शाना बे योगी समादि जकारे जै बव के सारे उसी में लगन सब तुम भी लगाओ तु आवा से सभी के छोटया ुशी मे लगन तु लगा आ से सदी चोटयाओ परमात् मे सदी तो अब सदा से अवकन्दे सखे से यात नहे ये पथप चलू कामना है ओ मैं सुख से केदार याचना है हे ये पथ पर चल कामना है ki कृत कुकर मो जब याद्या है अश्रु धारा बहा कृत कुकर मो जब आ Ashru धारा बहाति मन म सन्ताप की भोर अनुताप की वेदना है श पथ पर चलूं कामना है मन मन्ताप की घोर अनुताप की वेदना ये पथ पर पथप चल काम पायानर परे साधना की। कुछ भीश आराधना पायान साधना की। ी न ईष आराधना मन मृषेणा भरी काम मद कामदो भीना है पथप चल कामना है मन में भरी काम मद लोभ की कामोभीसेना है पर कामना है भक्त जन की सुनो करुण कविता विश्व दुरितो की हे देव सविता भक्तजन की सुनोण कविता विश्व दुरितो की हे देव कविता दूर दूरे दीजिये भदर भर दीजिये भावना है से पथप चल काम है दूरे भदर भर भरी जि भाव ये पथप चल कामना स्वस्ति पन्था मनुचरे मगवन् सूर्य अरुचन्द्र के तुल्य भगवन् स्वस्ति पन्था मनुचरे ममघवन् सूर्य अरुचन्द्रे के तुल्य भगवन् ज्ञान दू दान अघनता बनहु प्रार्थना हे ये पथ पर कामना है ज्ञान दू दान दू अघनता बनह प्रार्थना है शे ये पथ पर चल कामना है ले चलो पथ सर् वोर अगे बेरनिवाता ले चलो